पुरुषा सहस्राक्षसहस्रपात् स भूमिं विशतो मृत्वा अत्यतिष्ठद्विषाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतन्यच्चभव्यम् उतामृतत्वस्येशानः यदन्येनातिरोहति एतावारस्य महिमा अथोद्यायागुमिष्ठपूरुष पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोऽर्थो दये पुरुष पादोऽस्य भवात् पुनः ततो विश्वम्यक्रावति सा शनानशने अधि तस्माद्विराजायत विराजो आधिपूरुषः स जातो चरिचिर पश्चात्मो विमथो पुरः चित्पुरुषेण अभिषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्ञम् श्रीष्म यद्मशरद्धविः सप्तास्यासन्परिधयः चधः कृताः देवायज्ञन्तध्वानाः अबध्यन्पुरुषं पयम् संयज्ञम् बलिः क्षे प्रौक्षन्मे पुरुषञ्जातवग्रतः तेन देवा यजन्त साध्याये तस्मादिज्ञात् सर्वभूतः सम्भृतम् पृषधाज्यम् पशोगुंस्ताश्चक्रे वायुव्यानि आरण्यान्ग्राहं ज्ञाये तस्माज्ञात् सर्वभूतः ऋतस्सामान्यज्ञिरे तस्मात् यजस्तस्माञ्जायत तस्मादश्वा एके चोभयादतः कावो यज्ञेरहे तस्मात् तस्माअ्याता अधावयः यत्पुरुषं च दधो प्रतिधाव्यकल्पयन्ने मोखं च पश्यतु बाहु काभूरूपा तावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः कुरु तदस्य जद्वैषः पद्भ्यादुंशोद्रोजायत चन्द्रभामनसो जातः चक्षो शोद्यो जायत मुखादि न प्राणाद्वाजुर्जायता नाभ्या आसीदन्तरिक्षं तेष्णाद्यवोत्सवत्र पद्भ्याम्भो भर्जे शाश्वत्र आसीत् तथा लोकागुम् अकल्पयन् ते दाहमेतं पुरुषं महान्तम् सस्तु पारे सर्वाणि रूपाणि विचित्यधिरः नामानि कृत्वा भेवा जने यदास्ते ये धाता चक्रप्रविद्वान् प्रदिशत्ततस्रः तमेवं विद्वानुषयो भवति नान्यः पन्थाय नाय विद्यते यज्ञेन यज्ञमेदन्त देवाः तानि धर्माणि प्रथमान्यासन् ते ह नाकम् महि मानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अध्वः सम्भूतपृथिवीरसा च विश्वकर्मः समवर्तताधि तस्य त्वष्णाविदुषत् रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे ये वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णन्तमसः परस्तात् तमेवम् विद्वानमृत भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधरः यो देवेभ्य आतमति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मञ्जनयन्तः देवा अभ्रे तदब्रुवन् यस्त्वैवं ब्राह्मणो विद्याधि तस्य देवा असन्वशे हे ह्रीष्टते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्रादिरूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुं मनिषाण सर्वं मनिषाण सहस्रशीर्षं देवं विश्वन्नारायणं देवमक्षरं परमं पदं विश्वतः परमान् नित्यं पर विश्वन्नारायणगुं हरिं विश्वमेदं परुषस्तद्विश्वमुपजीवति पथिं विश्वस्यात्मेश्वरगं शाश्वतगं शिवमक्षितं नारायणं महाज्ञेयं विश्वात्मानं परायणं नारायणपरो ज्योतिरात्मा नारायणपरः नारायणपरं ब्रह्मसत्त्वन्नारायणपरः नारायणपरो ध्यासाध्यानं नारायणपरः यच्च किञ्चिद् जगत्सर्वं दृश्यते ये श्रोयतेऽपि वा अन्तर्भिहिश्च तत्सर्वं व्याप्य नारायणस्थिरा अनन्तमव्ययङ्कविदं स भद्रेऽन्तं विश्वशम्भुवम् पद्मघोषप्रतीकाशगं हृदयञ्चाप्यधोमुखम् अधो दृष्ट्यापितस्यान्तेनाभ्यामुपरितिष्ठति ज्वालमादाकुलं भाति विश्वस्यायतनम् महदि सन्ततगुं शिराभिस्तुलम्बत्याकोशसन्निभम् तस्यान्ते सुरगम् सूक्ष्मन्तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानुग्निर्विश्वातिर्विशतोमुखः सोग्रभक्विभजन्तिष्ठन्नाह रमजरः कविः तिर्यगोन्त्वमधश्यायैरिष्मयस्तस्य सन्तता सन्तापैति त्वम् देहमापादतलमस्तगः तस्य मध्ये वह्निखा अनीयो ऊर्ध्वा व्यवस्थिरः निरतो इद मध्यस्थाद्युद्धिर्लेखैवभास्वरा शोकवत् तन्निताभा सत्यनोपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शेवासहरेः सेन्द्रः सोऽपरमस्वराति श्रिवं सत्यं परं ब्रह्म पुरुषङ्कृष्णपिञ्जलम् पूर्ध्वरेतं विरूपाक्षम् विश्वरूपाय वैनभो नमः नारायणाय विद्महे वासुदेवाय धीमहि शर्णो विष्णुः प्रथोदयाच् विष्णोमृतं प्रबोधं यः पार्थिवानि विभमेरजागुंसि योऽस्तभा यदुत्तरगुसदस्थं विचक्रभाणश्रेधोरुधा यो विष्णो रणाटमसि कृष्णा पृष्ठमसि विष्णाश्च्रेष्ठ विष्णाश्यूदसि कृष्णार्थिवमसि वैष्णवमसि विष्णवे त्वा सद्यो जातं प्रपद्यामि सद्यो जाताय वै नभो नमः भवे भवे नाचि भवे भव स्वमां भवोद्भवाय नमः वामदेवाय नमोऽ ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमःकालाय नमःकरविकरणाय न मामलविकरणाय नमः बलाय न मामलप्रमथनाय नमः सर्वभूतगमनाय नमो मनोन्मनाय नमः अघोरे एभ्योऽ छघोरे एभ्यो घोरघोरथेभ्यः सर्वे एभ्यः सार्व सर्वे एभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयाधि ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपथर्ब्रह्मणाधिपथर्ब्रह्मा शिवो मे अस्तु सदा शिवो यातवेदते सुरवामसोपमराचि शोर्यहातिवेदः सरः परिषजति दुर्गाधि विश्वानामेव सन्धुन्धुरितात्यग्निः सामग्रवर्णान् तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु दुष्टां दुर्गान्दवेकं शरणमहं प्रपद्ये सुतरसितरसेनवः अग्ने त्वं पारयानव्यो अस्मान् स्वस्ति भरति दुर्गाधिविश्वाः पूस्थ्यपृथ्वी बहुरान उर्वीभवा तोकायतनयायशयोः विश्वाधिनो दुर्गा जातवे दस्यन्ध्वोन्ननावाद्युधितातिपरिषे अग्ने अग्रिवन्मनसागृधानो अस्माकं बोध्यभिता तनूनां पृतनादितनुगुं सहमानमुग्रभग्रिगं हुवेम परमात्सधस्थ अति तनः परिषदति दुर्गादिविश्वाक्षामद्देवो अतिदुर्हितात्यग्निः प्रञ्नौषि कमेद्यो अध्वरेषु सनाच्यः तानव्यश्च सत्सि स्वाञ्चाग्ने तनुवम् पिप्रयस्वास्मभ्यञ्चसौ भगवायजस्व गोभ्युष्टभैजोनिरिक्तम् तवेयन्द्रवेष्णा रघुसञ्चरेम नाकस्य पृष्ठमभिसंवसान वैष्णवीं लोक इहमादयन्ताम् कात्यायनाय विद्महे कन्यकुमारिधीमहि न्नादुर्गिप्रचोदयाधि ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतश्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महाभह तां महाभह यातवेदो लक्ष्मीवनमगामिनीं यस्यां हिरण्यं विन्दे अङ्गामश्वं पुरुषानहम् अश्वपूर्वामृथमध्यामहतिनादप्रबोधिनीं श्रियं देवीमुपह्वये श्रीर्मादेवी द्विषताम् कांसोऽस्मिताम् हिरण्यप्राकारा मार्द्राञ्जलन्तीं तृप्तां तर्पयन्तीं पद्मेच्छितां पद्मवर्णान्ताम्यो बह्वये श्रियम् चन्द्राम् प्रभासान्यशथा लोके ये विजुष्टामुदारां ता पत्नीभीं शरणमहम् प्रपद्ये लक्ष्मैर्मेण्यतान्त्वामृणे आदित्यवर्णे च भसोऽधि धातो वनस्पतेस्तवृष्टोथभिन्वः तस्य फला जतपसानुदन्तु मायान्तरायाश्च भाष्या अलक्ष्मीः उपैतु मां देवसकः कीर्त्यश्च मनिनासः प्रादुर्भूतोऽस्मि रात्रेऽस्मिन् कीर्तिमृद्युन्दधातु मे क्षुपिमसामराञेऽर्थामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमद्धिञ्च सर्वाहा निर्नद मे गृहात् गन्धद्वारा दुरातीर्णान्त्यपुष्टाङ्करीष्णे ईश्वरीरम् सर्वभूतानाम् ताभ्यो वक्व हे मानसः का ममाकुजमुवाच सत्यमशीमहि पशूनामुपमन्नस्य मयी श्रीश्रयथान्यषः कर्दमेन प्रजाभूतामयि सम्भवकर्दमा श्रियं वाचय मे कुले मातरं पद्मभाजिनीम् आपश्रियन्तु स्निग्धानिचिक्रियपस मे गृहे यदेवीं मातरं श्रियं वाचय मे कुले आर्द्रां पुष्करिणीं पुत्रिं सुवर्णां हेमभाजिनीं सूर्यां हिरण्मयीं लक्ष्मीव्यातवेदो भावः आर्द्रां यः करिणीं यक्तिं पिङ्गलां पद्मभाजिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो भावः तां महावहजातवेदो लक्ष्मीमनमगामिनीं यस्यां हिरण्यं प्रभूतङ्गावो दास्योऽस्वान्धेयं पुरुषानहम् कं महादेवी च विद्महे विष्णुपत्ने च धीम तन्नो लक्ष्मीः प्रचोदयाति श्रेर्वर्चस्ववायुश्वमारोद्योभमानं महीयुते धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घवायुः ॐ शान्तिश्शान्तिःशान्तिः